ब्रह्माण्डपुराणं पूर्वभागम् अध्यायं 38 ऐट् मन्वन्तरवर्णनं सूत उवाच सप्तमत्वधपर्याये मनोर्वैवस्वतस्यः मारीच कश्यपादेवाजज्ञिरे परमर्षयः आदित्या वसविरुद्रा साध्या विश्वे मरुद्गणाः भृगवोङ्गिरसश्चैव तेष्टौ देवगणा स्मृताः आदित्या मरुदो रुद्रा विज्ञेह्या कश्यपात्मजाः साध्यास्य धर्मपुत्रास्त्रयो गणाः भृगोऽस्तु भृगवो देवाह्यं गिरः सोङ्गिरः सुताः वैवस्वदेन्तरे ह्यस्मिन्नित्येते च गमिष्यन्ति महान्तं कालपर्ययात् एवं सर्गस्तुमारीतो विज्ञेयः साम्प्रत शुभः तेजस्वी साम्प्रतस्तेषामिन्द्रो नाम्ना महाबलः अतीतानागदाये च वर्तन्ते साम्प्रतं च ये सर्वे विज्ञेयास्तुल्यलक्षणाः भूतभव्यभवन्नाथाः सहस्राक्षाः पुरन्दराः सङ्गभंस्तच्छते सर्वे शृङ्गिणो वज्रपाणयः सर्वैः क्रदुषते नेष्टं पृथक् त्रैलो यानि त्रैलोक्येयानि सत्त्वानि गतिमन्दिध्रुवाणि च अभिभूयावतिष्ठन्ति धर्माध्यैकारणैरपि तेजसा तपसा बुद्ध्या बलश्रुतपराक्रमैः भूतभव्यभवन्नाथा यद्धा यद्धाते प्रभविष्णवः येदत् सर्वं प्रवक्ष्यामि भ्रुवदो मे निबोधत भूतभव्य भवध्येदत्समृदं लोकत्रयं द्विजैः भूर्लोकोऽयं स्मृदो भूतमन्तरिक्षं भव स्मृतम् ं स्मृतं दिवं वक्ष्यामि साधनम् ध्यायतालोकनामानि लोकनामानि ब्रह्मणाग्रे विभाषितं भूरि दिव्याहृतं पूर्वं भूर्लोकोऽयमभूत्तदा भूसत्तायां स्मृतो धातुस्तथा सौ लोकदर्शने भूदत्वाद्दर्शनाच्चैव भूर्लोकोऽयमभूततः अतोऽयं प्रथमो लोको, लोको भूदत्वाद्भूर्द्विजय स्मृतः भूदेस्मिन् व द्वित ब्रमणा पुनः भवदिप्य शोयुच्यना भुवर्लोको निरुआरुच्य अंतरक्षम तस्ती लोक उच्यसे उत्पन्ने तु लोके द्वितीये ब्रह्मणा पुनः भव्ये दिव्याहृदं पश्चाद्भव्यो लोकस्तदो भवत अनागदे भव्य इदशब्द एष विभाव्यते तस्माद्भव्यो ह्यसौ लोको नाम तस्त्रिदिवं स्मृतम् भूरितीयं स्मृदा भूमिरन्तरिक्षम्भुव स्मृदं दिवं स्मृदं तथा भव्यं त्रैलोक्यस्यैष निर्णयः त्रैलोक्ययुक्तैर्व्याहारैस्तिस्रो व्याहृदयो भवन् नाथ इत्येषादुर्वै धातुज्ञैः पालने स्मृतः यस्माद्भूतस्य लोकस्य भव्यस्य भवतस्तथा लोकत्रयस्य नाथास्ते तस्मादिन्द्राद्विजय स्मृताः प्रधानभूता देवेन्द्रा गुणभूतास्तथैव च मन्वन्धरेषु ये देवा यज्ञभाजो भवन्ति हि यज्ञगन्धर्वरक्षांसि पिशाचोरगमानुषाः महिमानस्मृदाह्ये दे देवेन्द्राणां तु देवेन्द्रा गुरवो नाथा राजानः पितरोहिते रक्षन्ती माः प्रजाह्येदे धर्मेणेह सुरोत्तमाः इत्येतल्लक्षणं प्रोक्तं देवेन्द्राणां समासदः सप्तर्षीन् सम्प्रवक्ष्यामि साम्प्रतं ये दिवं श्रुताः गाधिजकौशिको धीमान्विश्वामित्रो महात्तपाः भार्गवो जमदग्निश्च ह्यौर्वपुत्रः प्रतापवान् बृहस्पति सुतश्चापि भरद्वाजो महायशाः औतद्भ्यो गौदमो विद्वान् शरद्वान् शरद्वान्नाम धार्मिकः स्वायम्भुवोत्रिर्भगवान् ब्रह्मकोशस पञ्चमः षष्ठो वसिष्ठपुत्रस्तु वसुमाल्लोकविश्रुतः वत्सह सप्तैदे साधु सम्मदाः येदे सप्तर्षयस्योक्ता वर्तन्ते साम्प्रतेऽन्तरे इक्ष्वाकुश्च नृगश्चैव दृष्टश्चर्यादिरे भज नरिष्यन्तश्च विख्यातो नाभागो दिष्ट एव च करुषश्च पृषध्रश्च पांशुश्च नवमस्मृतः मनो वैव स्वतस्यैदे नवपुत्राः सुधार्मिकाः कीर्तिदा सप्तमं चैदन्तरम् इत्येष मया पादो कथितो द्विजा विस्तरेणानुभूर्व्या च भूयः किं कथयाम्यहम् इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्तो पूर्वभागे द्वितीयेऽनुषङ्गपादे मन्वन्तरवर्णनं नामाष्टात्रिंशत्तमोऽध्यायः समाप्तोऽयं पूर्वभागः ओ